अथ प्रथमाष्टके पञ्चमप्रश्नः प्रारम्भः अग्नेकृत्तिरा शुक्रम् परस्ताद् ज्योतिरवस्ताद् प्रजापदेरोहिणी आपः परस्तादशदयावस्ताद् सोमस्य परस्तात्त्ववस्ताद् रुद्रस्य बाहो ब्रवेवः परस्ताद्विक्षारोऽवस्ताद् अदित्यैगुर्वहो बादः परस्तादात्रमवस्ताद् बृहस्पदे स्तिष्यः युत्फलः परस्तायमाना अवस्ताद् सर्पाणामाश्रेषगच्छन्दः परस्ताद्यार्थम् द्वावस्ताद् स्ताद् हर्यम् नूर्वे भुने जाया परस्ताद्वोत्तरे मातवस्ताद् देवस्य सिदरहस्तात् सरिरवस्ताद् इन्द्रस्य चित्राणि नो राधाः अभ्यारोह्यारोढमवस्ताद् इन्द्रस्य रोहिणीपरस्तात् प्रदर्शनवस्ताद्देवणे निष्न्यपरस्तात् प्रदर्शनन्दोऽवस्ताद् स्ताद् विश्वेराम् देवानामुत्तराः अभिले परस्ताद् अभिजिरमस्तादृष्णा श्रवणा पृच्छमानाः परस्तात् पन्धा अवस्ताद्विश्रेष्ठाः मोदम् परस्तात् मोधिरवस्ताद इन्द्रस्य सदभिषक विश्वं विरापरस्ताद् विश्वक्षितिरवस्तात् अजचतेकपदः पूर्वे प्राष्ठपदाम् परस्ताद्वैश्वामसवमवस्ताद् अहे पुश्वात्तरे अभिषण्षण्स्ताद् ओष्णोरेवस्ताद् अश्विनारश्वयो रामपरस्तात् सेनावस्ताद् यमस्यापभरणे देवादतो पुण्यम् नक्षत्रम् तद्भट् कुर्वेदोपव्यम् यदा वेदोर्य उदेति अर्थनक्षत्रम् न इति यावत्ेत् तत्र च अन्यम् पश्येत् तावत् गुर्वेदे एवम् हविज्ञेषु चुम्नम् जमास्यो निरवसा ययाञ्जकारा योगेन क्षत्रियम् प्रजापतिम् वेद गृहयोरेनम् लोकयोर्विदो हस्त एवास्य हस्तः चित्राशिरः निश्च्या हृदयम् पूर्वविशाखे दृष्टा नो राधाः एषवेन क्षत्रियः प्रजापतिः एवम् वेदारेनम् लोकयोर्विदो अस्मिकुश्चा विष्मिग्गुश्च तान् कामये तदपितरम् प्रियास्यादिष्ट्यायान्तद्यात् भवति अभिजन्नाम नक्षत्रम् उपरिष्टादषाः श्रवणायैसंयुक्ताः सन् ते देवास्तस्मिन्नक्षत्रेऽभ्यजयन् यदभ्यजयन् तदभिजिताभिजित्रम् यम् कामये तान् अपजयन्ते स्मिन्नक्षत्रे याद्मिवतो प्रजापति हे नक्षत्रम् नक्षत्रमुपातिष्ठन्त हे श्रावन्त हे रेवन्त हे रेवत्याम् प्राभवन् तस्माद्रेवत्याम् पशूनाम् सोमादैव भवन्ति सलिलम्बा इदमन् यदतरन्न तत्तारम् यो वा येजते अमुको सलोकम् नक्षते अन्नक्षत्राणाम् देवगृहाय नक्षत्राणि एवम् वेद तु स्वेव भवति यानि वा इमानि भुव्याश्चित्राणि तानि नक्षत्राणि तस्मादस्वेदनामग्रश्चित्रे नावस्येन्न यथा पापाहे कुरुते तादृगेव तद देवनक्षत्राणि वा अन्यानि यमनक्षत्राण्यन्यानि कृत्तिकाप्रथमम् विशाखे उत्तमम् तानि देवनक्षत्राणि अनुराधाप्रथमम् अपहरणे तानि यमनक्षत्राणि यानि देवनक्षत्राणि तानि दक्षिणेन भर्यन्ति यानि यमनक्षत्राणि तान्युत्तरेण स्मेति प्रत्यये क्षामेति तन्मोराहणिशोदयच्छन्तत्यामलवन्त अश्वैजोरेञ्जरा अपवर्णेष्वभावहन् तानि वा एतानि यमनक्षत्राणि क्षत्राणि देवाग्निष्टात्मीर्यम् निर्मार्गः यत्रस्य सङ्गवः तत् पुण्यङ्गे यस्य यत्प्रतीजेन गोसङ्गवाद् राजेन यत्प्रतीजीनम् मध्यन्दिनाल्नमपराह्णात् तत्पदार्थवीर्यम् निर्मार्गः तत्पुण्यञ्जेस्यः अस्माद तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्ति यप्रतीपराह्णात् प्राचीनको सायात् ततो देवातिरात्रे वरुणस्य सायम् यत् पुण्यन्ते यस्य तस्मात्तर्हेनानृतम् वदेत् ब्राह्मणोष्टक्षत्राणाम् क्षत्राणि चत्वारिश्लेयानि तानि न वा यच्च परस्तान्य ब्राह्मणा संवत्सरेणैवास्य मृतम् वृत्तम् भवति समानस्या न्यानि नक्षत्राणि चत्वारिश्लेयानि तानि न वा आग्नेः रात्रिः अयै नमः तान्येकादश आम् वित्त्वास्य व्रतम् भवति ब्रह्मवादिना वदन्ति त्रिपात्राणि यज्ञम् वहन्तीतिब्रूयात् ब्रूयात् समीतेति प्रजापतिरति ब्रूयात् स योयात् कुतस्वान्ति आत्मन इति प्राणापानाभ्यामेवोपाविमो निर्मी भवम् यज्ञम् वादम् प्रजापतिनिरमिता स निर्मितोनात्रेद्रीयता स एतान् प्रजापतिरपि पापान् पश्यत तान् निरवत यदपि वापा भवन्ति यज्ञस्य श्रुत्यासंरयाय रथमेव परमेष्ठी रतन्नात्ये समग्राहिताः शिरस्तवस्याहितम् त्यम् दच्छकेयम् तेन शकेयम् तेन राध्यासम् पर्यवर्तयत् पृथिव्यादिवः सह ्यास्त ौषधीः अग्नियैशानपोजः सह अग्निस्वृष्टिः शिरस्तवस्याहिदम् अजेनानिवर्तये सत्येन परिवर्तये तमसानुवर्तये शिवेपवर्तयेवर्तये तदण्डसत्यम् तद्वदम् दच्छेयम् प्रजाभ्यः प्रजामलप्रजायुषे तदेव परिवत्सराः येन प्रजापले सन्निवर्तयन्त्य ब्रह्म स्यानुवर्ते शिवेनवर्तेक्मेनावर्ते तद्रतम् दत्सत्यम् तद्रतम् दच्छगेयम् तेन चगेयम् देवा वै यद्यत्ने कुर्वता कुर्वताम् पृष्टेभ्यो नापश्यन् ते केशानग्रे वपन्त अथस्मश्रोणि अथोपक्षौ अभवन् वपन्ति वरा अथोपदैव भवति अथ देवा ऊर्ध्वम् पृष्टेभ्योऽपश्यन् तौ वक्षाग्रे वपन्द अथस्मश्रोणि अथ केशान् स्वर्गम् लागमायन्न यस्यैवम् वदन्ति भवत्यात्मा अतो सुवर्गम् लागमेदि अधेतम् मनोर्वक्त्रेऽपि धनमवश्य स्वस्मश्यग्रेवपदा अथोपक्षौ अथ केशान् स प्राजाय प्रजया पशुभिः यद्येवम् भवन्ति चलरो मासो वृञ्जतेन्द्रराजानः तान् शीर्षणप्रासे मासो वृञ्जतवरुणराजानः तान् शीर्षण्योर्षण्येवाभवन् राज एव रासु यस्यैव मासो लुप्त्वा शीर्षण्य च वर्तयते परिज येषा संवत्सरोपदीवा एतदेव भवन्त्येति प्रजायते यदेवम् विद्वान् लोहिता यशेन निवर्तयते एतदेव रोगम् कृत्वा निवर्तयते स तदस्वस्वभूयाम् वै विजायते श्रीन्यासल्या निवर्तयेत त्रीणि त्रीणी देवानामृद्धानि प्रतिष्ठति इत्याध्य देवेभ्यः वृष्ट्येत चतुर्षु चतुर्षमासेषु निवर्तयेत परोक्षमेव तद्देवेभ्य आत्मनावद्यनास्थाय देवानाम् वा एषः च वर्तयते परि च देवता एवाप्येति नास्य रद्रप्रजाम् पशो नोन्तन प्राणादपानगौ सन्तनो अपाणाद्व्यानगो सन्तनो व्यानाश्चक्षुः सन्तनु चक्षुषश्रोत्रगौ सन्तनु श्रोत्रात्मनः सन्तनो मनसो वाचगौ सन्तन् न्तनो आत्मा पृथिवीगो सन्तनो अन्तरिक्षन्तो अन्तरिक्षात् दिवगो सन्तो दिवस्वः सन्तनो इन्द्रोदधीचान्यप्रतिस्पृतः इच्छन्नम् इन्द्रो हि इन्द्रोदीर्घाक्षते वा सहस्रप्रधय उग्र उग्राभिरुदभिः तमिन्द्रम् वाजयामसि नहे वर्त्रायहन्तवे सौषा वृषभोपपद इन्द्रः सदा मने कृतः गोदिष्टः सवलेहितःभृतः शबलोहनवत्सुतः मोक्षुरुक्रोस्त्रुतः प्रह्लादो हवैकाया प्रजापतिमुपसमेत्यभिरन्वैच्छन् तञ्जज्ञम् ता इष्टक्षते परोक्षेण परोक्षप्रियाय हि देवाः वैष्णवमेकादशकपालन्ते क्षणैपन् तदपदृत्या तन्वता तान्वत्नी संयान्त उपानयन् ते तदन्तमेव कृत्वा तद्रुवन् ते प्रायणीयमभिसमारोहन् तदपदृत्या जन्मतायैवन्त उपानयन् ते तदन्तमेव कृत्वा दद्रवन् तादित्य इष्टयः सन्तिष्ठन्ते एव देवाकुर्वत इति देवाकुर्वद इत्यवैमनुष्याः कुर्वते हे देवा ओजो यद्वा इदमुच्चैर्ये न जरामरान्दन्ति उपापुंसु प्रसदा च राम तथा नेत्स्यन्तीति स उपाकुंशोपसदम् एव सामिधेनोच्य श्रवेणाकारमाखार्य यः सर्पराधेराहुते हृत्वा स्वेणोपसदम् चक्रुः उग्रम् वचो अभावधी द्वेषं वचो अपावधी स्वाहेति अनयापि मासे हवा उक्रम् वचः येनश्च वैरहत्यञ्च द्वेषं वजः एतकोहावदत्थाविहितम् पाप्मानम् देवा अपजग्रे तथा एवैतदेवम् विजमानः तिस्र एवसामिधेनेरणोच्च स्रुवेणाकारमाकार्य इश्रप्राचेराहुतेरुत्वा स्रुवेणोऽपसदम् जुहोति उक्रम्वचो अपावधीन्त्वेषं वचो अपावधीस्वाेति अशनयापि वासे हवा उक्रम्वचः येन वैरहत्यञ्च द्वेषं वचः एतमेव दत्तु लग्धाभेदम् वामानम् यजमानोपहतेवाः पशुमालभन्द अह्न एव तद्देवावत्यम् वामानम् मृत्यमपज्रे एनाभिनीयेव रात्रे प्राचरन् रात्रिया एव तद्देवावत्यम् वामानम् मृत्यमपज्रे तस्मादभिनियैवाः पशुमालभेद अह्न एव तद्यजमानोवृत्तिम् वरात्रे ग् वा एतार्मित्रावणौ पञ्चपञ्च यजमानः ्छन्दाभिप्रातरन्दाकोषप्रातरणवाक्येनोच्यन्ते तमेतयोपसमेत्योपासीन उपास्मै गायदानर इति तस्मादेतया बहिष्पवमान उपसद्यः स समुद्र उत्तरप्राचेन एष वाव समुद्रः एषो्यन्दः यदे तदेतत्र षडन्त्रिपोरुषम् कस्मात्तम् गणन्ति स सुवर्णरजराभ्याम् कृषेभ्याम् परिगृहीतासीत् त्यजनयन् तस्मादादित्यः अथेत्सुवर्णरजराभ्याम् भिप्रास्त्वम् त्रिवृता ददधदाहरन् यावी त्रिवृता मात्राः तम् पञ्चदशेनाभिप्रास्त्वम् पञ्चदशेनाददा तम् पञ्चदशेनाहरन् यावी पञ्चदशस्य मात्राः खगुंसप्तदशेनाभिप्रास्त्व खगुं सप्तदशेनादद खगुं सप्तदशेनाहरन् यावदी सप्तदशस्य मात्राः तस्य सर्पदशेन जोहरोपद तमेकविपुंशेनाभिप्रास्तुवद त्वमेकविपुंशेनाददतविपुंशेनाहरन् यावत्येकविः त्रिवृदैव तम् त्रिवृदैव हरन्ति यावी त्रिवृता मात्रा अग्निर्वै त्रिवृद यावत् माग्नेत्यादि तावदी त्रिभुतामात्रा अग्नेरेवैनन्दद मात्रा कुंसायुध्यकंसलोदाङ्गमयन्ति अथ पञ्चदशेन स्तुवदे पञ्चदशेनैव तद्यजमानमाददते कम् पञ्चदशेनैव हरन्ति यावी पञ्चदशस्य मात्रा चन्द्रमा वै पञ्चदशः एष पञ्चदस्यामवक्षीयते पञ्चदश्यामापूर्यते चन्द्रमःैनन्तद मात्रागुंसायुज्यंसलोकताङ्गमयन्ति अथयत् सप्तदशेन सप्तदशेनैव दर्विजमानमाददते सप्तदशस्य मात्राः प्रजापतिर्वे सप्तदशः प्रजापतेरेवैनन्दत मात्रागुंसायुज्यकुंसलोकताङ्गमयन्ति अथयदेकविघुंसेन स्तुपदे एकविवंशेनैव मानमादते अमेकविंशेनैव हरन्ति यावत्येकविवंशस्य मात्राः असौ वा आदित्य एकविवंशः आदित्यस्यैवैनन्तर आंसांसदाोन् अहरात्रे अभवता अहरेव सुपन्नाभवत् तदा रात्रि सेनादित्य उदेति एतामेव तत् सुवर्णाङ्कृषीमनुमेति अथेदस्तमेति एतामेव तत्र जताङ्कुषीमनुसंविशति तस्मात् प्रजलात् जगन्ना चेत् कृतम् तत् अथेवम् च कलिस्सः कस्माच्चतुष्टामः तच्चतुष्टामस्य नित्योगींषिकस्य सप्तदशेन ह्रियमाणोऽषिमेति तमश्विनो दानाभिरभिषत्यताम् पोषाकरम्भेण हारतीपरिपापेन पित्रावरणोपयस्यया तलाहो यदस्विष्णः करम्भः भारत्रीपरिभावः मित्रावरुणयो यस्या तस्मादेतायागो हविषामिन्द्रमेव निदन्तीति यदा एनम् देवता इति ब्रूयात् एतेस्तस्मादिति वने एकादशकपालेन माध्यन्दिने विश्वे देवा द्वादशकपालेन कृते वने कुर्यात् एकादशकपालान् माध्यन्दिने सवने द्वादशकपालाकस्तृतीयसवने एकादश यज्ञस्य सोनाम् राजस्सवन्दिनकोसम् देवानान्द्रवनम् यजन्तीति एता देवता इति प्रोया दादविभयो दा अमेतेषु सप्तविषङ्गस्वश्रयन्नश्रयन् अक्षायन्दीयस्य श्रयन्दीयत्वम् यदवारयन्नीयत्वम् तस्या वाच एवावगादादविभयो तस्मा एतानि सप्त चतुरुत्तराणि छन्दा कस्य वा दधो तेषामृत्रेण्यदृच्यन्ता ऋत्रेण्यदभवन् समृहतीमेवास्पृशत क्षराभ्याम् अहोरात्राभ्यामेव तदाहोः कतमासा देवाक्षराबृहति यस्यान्तप्रत्यतिष्ठत द्वादशरोणमास्यः द्वादशाष्टराः द्वादशामावास्याः तेषामावसा देवाक्षराबृहति यस्यान्तप्रत्यतिष्ठदिति यानि च सङ्गाकस्यतिरिच्यन्त यानि जनोभवन् तानि निर्वीर्याणि हीनान्यमन्यन्त प्रहते सा प्रमे प्रहति मामेव भोद्धेदे चतुर्भिरक्षरे नष्टुर्प्रहतेऽन्नादभवत् चतुर्भिरक्षरेच्यत तस्यामेतानि न्यक्षराण्यपक्षित्या अष्टाभिरक्षरे दृष्टिप्रहदेऽन्नादभवदष्टाभिरक्षरेष्टिर्प्रहतेमुच्चरिच्यत अस्यामेतान्यष्टावक्षरात् हे बृहती एव भूत्वा भगेव अक्षरेत्यगदे बृहगेवत्यरिच्छिदा अस्यामेताक्षराण्यपच्छिद्या ददात् हे बृहती एव भोत्वा भगेव भवदा मे भवता युष्माभिरहमेतमध्वानमनुसञ्चराणीति तस्य गायत्रे जगते च पक्षामभवता त्रिष्टप्रष्ट्योः अनुष्टप्त्योः प्रहत्येवोद्भिरभवद स एतञ्छोर्थमास्थाय एतमध्वानमनुसमचरद एतमो हवेच्छञ्जोरथमास्थाय एतमध्वानमनुसञ्चरति एत्सञ्जरति इति प्रथमाष्टके पञ्चमः प्रश्नः समाप्तः